यथा राजकुलं प्राप्या सर्वान् दोषान् स्तरिष्यथा चैव कौरव्या जानता राजवेश्मनि अमानितैर्मानितैर्वा अज्ञातैः परिवत्सरं ततश्चतुर्दशे वर्षे चरिष्यथ यथा सुखम् दृष्टद्वारो लभे द्रष्टुं राजस्वेषु न विश्वसेत् तदेवासनमन्विच्छेद्यत्र नाभिपतेत्परः यो न ना यानं न पर्यङ्कम् न पीठं न गजं रथम् आरोहेत्सम्मतोऽस्मीति सराजवसतिं वसेत् यत्र यत्रै नमासीनं नम दुष्टचारिणः न तत्रोपविशेद्यो वै सराजवसतिं वसेत् न चानुशिष्याद्राजानमपृच्छन्तं कदाचन तूष्णीं उपासीता काले समभिपूजयेत् असूयन्ति हि राजानो जनान्नृतवादिनः तथैव चावमन्यन्ते मन्त्रिणं वादिनं मृषा नैषां दारेषु कुर्वीता मैत्रीं अन्धःपुरचराये द्वेष्टिया नहिताश्च ये विदिते चास्य कुर्वीता कार्याणि सुलघून्यपि एवं विचरतो राज्ञी नक्षतिर्जायते क्वचित् गच्छन्नपि परां भूमिमपृष्टो ह्यनियोजितः जात्यन्ध इव मन्येता मर्यादामनुचिन्तयन्